गर्गसंहिता खण्डम् टेन् अश्वमेधखण्डम् अध्यायम् 18 गर्ग उवाच अधमुक्तो निरुद्धे न क्रदोर्वाजीपयप्रभः सिंहलद्वीपनिकडे विचचारय दृजय कृषार्तस्तुरगस्तत्र दृष्ट्वा वापीम् जलान्विधाम् वृक्षैश्च बहुभिर्गुप्ताम् दृष्ट्वा तोयम् पपौ स्वयम् वाप्यामश्वम् विलोक्याभीषणो नाम राक्षसः वाचयित्वा च तत्पत्रम् जग्राह तुरगम् मुदा तदैव यादव सर्वे पश्यन्तः समागताः राक्षसेन गृहीतम् वैदृश्युक्रदुवाजिनम् तदस्ते कौणपम् प्राहु यादवा शुद्धशालिनः यादवा ऊजुः कस्त्वम् श्री यादवेन्द्रस्य क्युग्रसेनस्य भूपदेः सिंहस्य वस्तु क्रोष्टेव हयम् नीत्वा क्व यास्यसि अस्माभिः कुरु धैर्यदः तुरगम् मोचयिष्यामो वदिष्यामो रणे च शकुनिर्भ्रादृसहीदो नरको बाण वजा ज कलङ्कश्चैव राजान ये देस्माभिर्विनाशिताः तस्मान्न गणयिष्यामो युद्धे त्वाम् च तृणोपमम् गच्छ गच्छ हयम् दत्वा घातयामो न चेत् खलु तेषाम् भाषितमाकर्ण्यभीषणसुरभीषणः भीषण उवाच के यूयम् प्रदियोद्धारो मम भक्ष्या नरः स्मृताः सम्मुखे राक्षसानाम् ते किम् करिष्यन्ति पौरुषम् यदा विश्वजितम् यज्ञम् यादवेन कृतम् पुरा तदाहम् कौणपान्नेदुम् लङ्कायाम् च गद किल यदाहम् राक्षसान् नीत्वा स्वपुर्याम् च समागतः तदा शृणोन् नारदा द्वैयज्ञम् पूर्णम् बभूवः पुनर्वैहयमेधस्य प्रयासम् च वृथा कृतम् युष्मत्सुमद्गृहीतम् च तुरगम् मोचयन्ति के तस्माद्धयां शाम् त्यक्त्वा तु यूयम् गच्छद न चेत् सर्वम् प्रभक्ष्यन्ति चतुर्लक्षा ममानुगाः अत्र स्थानात् समुद्रे दुपुरि द्वादशयोजने उपजङ्काजनाम्ना वै वर्तते मम निर्मिदा निशाचरगणैर्युक्ता सर्पै भगवदी यदा यत्युक्त्वा सखयम् नीत्वा सखसा स्वपुरीम् ययौ आकाशमार्गेण ोकम् मा कुरुदे राजन् स्थितेष्वस्मासु किम् भयम् अया सैन्ये विमानानिशरास्तथा सूरा सन्ति महावीरा लोकद्वयजिगीषवः अश्वाैर्वयं गमिष्याम सेतुम् कृत्वा दवाशरैः विष्णुदत्तेन वारा चतॄणाम् नगरीम् प्रदी सर्वेषां वचनं श्रुत्वा निरुद्धो धन्विनां वरः उद्धवम् मन्त्रणां श्रेष्ठसमाहूयेदमब्रवीद अनिरुद्ध उवाजा किं करिष्याम्यहम् मन्त्रिञ्चामकर्णे गदे सदि त्वचासने भगवद प्रेरितोऽहं वद स्व तद सर्वे उपायं प्रवदन्ति किम् यदि दास्यसि त्वम् चाज्ञाम् तदा सर्वम् करोम्यहम् उद्धव तद्वज श्रुत्वा प्रत्युवाच विरज्जितः अहम् कृष्णस्य पुत्राणां पौत्राणाम् च विशेषदः सदा दासोऽस्मिन् इतरामाज्ञावर्ती वदामि किम् यदि च तव चैतेषाम् कुरु भविष्यति ततः प्राह निरुद्धस्तु यास्येतं दैत्यपत्तनम् अक्षौहिणी दशयुधो विष्णुदत्तेन यादवाः साधनकृतवर्मा च अक्रूरसगिता ये ते सेनाम् रक्षन्तु छात्र हि इत्यक्त्वा सविमानम् त्वारिरोहसहसेनया अष्टादशैर्हरे पुत्र गदेनजा गदेन च रे चेतदोभास्कर बिम्बतुल्यम् धनेशयानम् स्वबलेन नीदम् श्रीकृष्णपौत्रेण यदुप्रवीरायिर्यथाजरामेण पुरा श्री गर्ग यदि श्रीगर्गसंहितायाम् अयमेधखण्डे विमानारोहणम् नामाष्टादशोऽध्यायः ओ अध्यायम् नैन्टीन् श्रीगर्ग उवाच अधरुक्मवदी पुत्रो महत्या सेनया वृतः उपलङ्काम् विमानेन प्रययौ धनदो यथा यदुभिस्तत्र गत्वा स शरैराशीविशोपमैः बभङ्गनगरीं राजन् वन्नान्युपवनानि च वनान्युपवनानि च क्रीडास्थानानि द्वाराणि सदनाट्टालतोलिकाः कोपुराणि विमानाग्राणिपेदुः शस्त्रवृष्टयः मुसलशक्तयश्चैव परिखाश्च शराक्षिदाः चण्डवायुरभूद्राजन् रज्जः सा चादिदातिशः इत्यार्ध्यमाना यदुभिर्भीषणस्य पुरी दृश्यम् नाभ्यपद्यतकल्याणम् यथा शाल्वैश्च द्वारिका हाहाकारस्तदैवास्विन्न कद्या नृपसत्तम असुरा भीषणाद्याश्च बभूव च नगरीम् दृष्ट्वा राक्षसपुन्तवः मा भैष्टेत्यभयम् दत्त्वा राक्षसैः सह निर्ययौ तद प्रवहृदे युद्धम् यादवानां निषाधरैः तत्पुर्याम् चैव लङ्कायाम् कपिभीरक्षसाम् यथा कृष्णीनां चैव बाणौकै राक्षसाच्छिन्नकन्धराः निपेतुस्तु समुद्रे वै वृक्षा वादकदा इव केचित् पृथिव्याम् पथिता केजित् के पुर्य मदोमुखाः केजिदूर्ध्वमुखराजन् केजिद्वै पञ्चताङ्गदाः तत्र तेषां शोनितेन दुर्नतीजभयङ्करा बभूव सा जुष्परमः वैतरिणी यथा तत्र तेषां बलं वीक्ष्य भीक्षणो विस्मयं गतः अश्वासनीयम् च वृथा यूयम् मानम् करिष्यध युष्माकम् यदि देहेषु शक्तिश्चेद्विद्यते शृणु महीतले तदागत्य मया कुरुद वैरणम् इत्याकर्ण्यवचः सोऽपि कार्ष्णीजकरुणामयः विमानम् भूतले कृत्वा प्रत्युवाच महासुरम् अनिरुद्ध उवाच सह गुरुमहारणे किम् किं विचारेण भवति भयं त्यक्त्वा महासुर इति तद्वाक्यमाकर्म्यभीषणो भीमविक्रमः धनुषा पञ्च नाराचां चांस्तस्योपरिमुमोचः अनिरुद्धो निरीक्ष्या तस्वबाणैस्तान् द्विधा करोद चिच्छेत च धनुस्तस्य शरेणैकेन लीलय सोऽप्यन्यं धनुराधाय सज्जम् कृत्वा निशाचरः सर्पकारैषदशरैर्जखानकार्ष्णिनन्दनम् रथस्तु तस्य भग्नोऽभूत् सारथी पञ्चताम् गदा अयामृत्युम् गदा सर्वे प्राद्युम् निर्मूर्च्छितो भवद तदैव वृष्णय सर्वे स्फुरिदाधरपल्लवाः स्वनाथम् पतितम् दृष्टे शून्मुञ्चन्तः समागतः तानागतान् बहून् दृष्ट्वा चापं धृत्वा सुरोरुषा गतया प्रोधयामास गांष्ट्र एव मृगन् गदा प्रहारव्यधिदा यादवा पदिदा सम्भिन्नचिन्नसर्वाङ्का के जिन्निपदि तारणे ततो गृहीत्वा स्वगदां गदसङ्घर्षणानुजः ताडयामाससमरे भीषणस्य जमूर्धनि गदाप्रहारव्यधिदस्सपपादमहीतले चालयन् वसुतां राजन् यथा वज्रकधो गिरः भीषणं पतितं दृष्ट्वा मूर्छितं भग्नशीर्षकम् असुरास्ते कथं कन्तुं प्राप्ता शस्त्रधरा तान् सर्वान् प्रोधया मासगतया वज्रकल्पया रामानुजो यथा राजन् नृसिंहो दंष्ट्रया गजान् अधोद्धितो ब्रुवन् धन्वीक्षणेन वै भीषणो मम शत्रुर्वै क्व गदः महाखलः उद्धितं च हरे पौत्रं दृष्ट्वा यादवपुङ्गवाः चक्रोर्जय जय रावं देवः सर्वे जघर्षिताः तदोनारदवाक्याद् वै भवनामनिषाचरः भीषणस्य पितारण्यात् क्रुद्धस्तत्रा जगामः कज्जलाद्रिसमो राजन्तालवृक्षदशोभितः लिह्वश्च दुर्नेत्रस्त्रिशूली जगदाधरः अस्ति न वामहस्तेन गृहीत्वा जमुखेन प्रभक्षन् रुधिराक्रान्त पिशाच सदृशो महान् पद्भ्याम् तालप्रमाणाभ्याम् कम्पयन् पृथिवीतलम् भयप्रदष्टदेवानाम् जनकालोऽदृश्यदा तमायान्तम् विलोक्यादशङ्कितास्तत्र यादवाः रोजु परस्परम् सर्वे स्मृत्वा कृष्णपदाम्बुजम् यादवा उजुः कोयमित्राणि गदद निकटे जसमागदः महाबीभत्सरूपी वै कृतान्त इव निर्भयः इति ब्रुवत्सु सर्वेषु आसीत् कोलाहलो महान् प्रसन्नस्तं निरीक्ष्या ध बभूवुस्ते निशाचराः भीषणमूर्तितं दृष्ट्वा बहु राक्षसभुङ्कवः सुशौचराजन् सङ्ग्रामे हा दैवेदिमुहुर्वदन् तदो मूर्छा मुहूर्तेन विहाय भीषणो नृप उद्धितस्तु ब्रुवन्वाक्यं गतकुत्रो गतो भयाद स्वपुत्रमुदितं दृष्ट्वा पुरुषादस्तु हर्षितः आलिङ्ग्याश्वासयामास सुवाक्य वाक्यकोविदः भीषणपितरं दृष्ट्वा सहायार्थं समागतं नमश्चक्रे महाराज भूत्वा इति श्रीगर्गसंहिताया भयमेधण्डे बगाकमनम् नामयिको न विंशोऽध्यायः ओ अध्यायम् ट्वेन्टि गर्ग, गर्ग उवाच अधासुराणाम् मध्ये वैस्थित्वा राजन् ऋषान्विदः अभिप्रायभीषणम् च बर्गः पप्रचराक्षसः किमर्थम् याद वै सार्धम् युद्धमासीत् तृणोपमैः त्वं च यत्र गतो मूर्छां राक्षसा निहदाहो इत्युक्तस बकेनाभिभूत्वा राजन्नवाङ्मुखः हयमेध हा। तुरङ्गस्य वर्तम् सर्वामवर्णयद श्रुत्वा पुत्रस्य वचनम् गृहीत्वा स्वकदाम् बकः विवेश यदु सैन्ये वै ज्वलनस्तु यथा वने पद्भ्याम् ममर्दपाणिभ्याम् यादवान् सम्मुखे गतान् नमश्च भक्षयन् युद्धे शब्दम् चक्रे बको बली ननादेन लोकैश्च विश्वम् शब्देन यादव जादा च बधिरीभूता पृथिव्याम् जनमण्डली अत तस्यापि युद्धेन विपरीतेन यादवाः आहेतिवादिन सर्वे बभूवु खिन्नमानसाः बाध्यमानाञ्च स्वां सेनाम् राक्षसेन दुरात्मनान् वृशं निरीक्ष्य तप्तो भूत्सां साम्भो चा भवदीसुधः गृहीत्वा पञ्च नाराचान् कोदण्डे चण्डविक्रमः निधायाशुमुमोचाद बहस्योपरिमानद ते बाणास्तच्छरीरं वैभित्वा राजन्महीतलम् विविशुस्ते तु गत्वा वै, वै पपुर्भोगवदी जलं सह दस्तु शरैराजन्पपादचालयन्महीं पुनरुद्घाय च भगवन्ननाद जलदस्तुनः पुनर्जाम् भगवति पुत्रो जग्नेतम् पञ्चभिशरैः तैर्बाणैर्विभ्रमन् सोऽपि लङ्कायाम् निपपादः आगत्य त्रिशिकम् रक्ष त्रिशूलम् ज्वलनप्रभम् राजन् साम्बय शिक्षेभप्रसूनमिव हस्तिने दृष्ट्वा साम्बो बाणेन चिच्छेदप्रधने शीघ्रम् नागम् नागान्तगो यथा ततो नीत्वा गदाम् गुर्वीम् साम्बस्य तुरकान् राजं जकानसारथिं तथा रथं चैव पताकां च कत्वा साम्बमुवाजः रथमन्यं समारुह्य युद्धं कुरु मया सह विरथं न हनिष्याम्यहं मृणे इत्तीतो सौ दैत्येन हसन् किञ्चिदृशान्विदः शीघ्रं जका न कदया बहस्य च गदाफदो बको युद्धे किञ्चिद्व्याकुलमानसः अगणय तदस्साम्बम् यदुः सैन्ये विवेशः स गत्वा तत्र गदया गजवाजिरथान्नरान् कौ न भ प्रोधयामास मृगेन्द्रस्तु यथा मृगान् सैन्ये नृपेश्वर तदो विलोक्य रोषेण राजन रुक्मवदी सुधः तत्रागतो भयं कुर्वन् रथे नाक्षौहिणीयुधः अनिरुद्ध उवाच किं करिष्यसि हे मूढत्यक्त्वा वीरस्य सम्मुखम् दितानामारणे श्वाखा न भविष्यति ते यदि शक्तिश्चत्वद्देहे विद्यते शृणु मध्वजः मत्सम्मुखे समागत्य कुरु युद्धम् प्रयत्नदः इति श्रुत्वा निरुद्धस्य वाक्यं राजन् बकासुरः रुषा स्फुरसर्पयैव युधार्थम् शीघ्रमाययौ आगतम् तम् विलोक्याधा निरुद्धो धन्विनाम् वरः नारा चैर्दशभिराजन् जखानम् प्रधने रुषा ते शरास्तच्छरीरम् वै भित्वा बहिर्गदाः पुनस्ते भीषणम् भित्वा पुनस्ते भीषणम् भित्त्वा विभीषोर्वै भी महीतलम् तद पपासस्थ बको भीषणेन समन्वितः पृथिव्याम् भूत्वा यदा वज्रहतो तदा जय जय प्रावो यदुः सैन्ये बभूवः ने दुर्दुन्दुभयश्चैव वेद्य शङ्काश्च गोमुखाः ततश्च राक्षस सर्वे क्रोधभूरितमानसाः स्वनाधौ पतितौ दृष्ट्वा यदुन्हन्तुम् समाययुः तद समभवद्युद्धमुभयोः सेनयोर्मृधे बाणै खड्गैर्गदाभिश्च शक्तिभिर्बिन्दि पालकैः राक्षसानां बलं तीव्रं दृष्ट्वा राजन्हरे सुधाः अष्टादश च सम्पाद्या निजग्नुर्निशितैशरैः तत्र तेषां च बाणौखै कौनपापदिदा मृधे के जिन्मसिं गदा के ैषिणः अधोधितो मुहूर्ते न भगो राजन् भयङ्करः पुरम् जगाम शत्रोश्चानिरुद्धस्य दुः सम्मुखे तत्र तत्रगत्वा गदाम् गुर्वीम् शिक्षेप तच्छिरोपरि बाहुना च भगोराजन् हतो सीदिभ्रुवन् वजः तमा गदाम् विलोक्याध यमदण्डे न माधवः चिचेदसहसा राजन् कुवाक्येनेव मित्रतां तद क्रुद्धो बहो युद्धे प्रसार्य मुखमण्डलं रुद्रावदं भक्षयितुं राहुश्चन्द्रमिव क्वजिद आगदन्तं निरीक्ष्य आधानि रुद्धो धन्विनां वरः यमदण्डं पुनर् नीत्वा ताडयामासेनदं तदो भग्नशिरा भूत्वा ह्युद्वमन् रुधिरं मुकाद चालयन्व सुधां राजन् परितो भवद ततश्च भीषणो रोषात् पितरं वीक्ष्य मूर्च्छिदम् परिखेन च का न तु याधवान् ततो निरुद्धो बलवान् नागपाशेन रोषधः चकर्षभीषणं बद्ध्वा नागं विष्णुरथो यदा सम्बद्धं पाशेन पाशैर्भग्नमानमधोमुखं विनर्जितम् हीनबलं साम्भो वदनमब्रवीद असुरेन्द्रानिरुद्धस्य भयमे सदुरङ्गमम् शीघ्रम् प्रयच्छ भद्रम् ते पुरीम् हरे पौत्रम् श्रीकृष्णस्य महात्मनः नृणाम् प्रदर्शयन् रूपं विचरन्तम्मिषेण च यं न मन्दिसमागत्य देवदैत्यनरासुराः तम् विद्धि कृष्णसदृशम् नृणाम् पापप्रणाशनम् तेन त्वम् निर्जितो मा कुरु राक्षस अस्माभि गच्छ कर्तुम् कृष्णस्य दर्शनम् दुर्ग उवाच बोधितस्वपि साम्बेन मुक्तपाशैश्च वारुणैः पुरीम् गत्वा ददौ तस्मै द्रव्ययुक्तम् तुरङ्गमम् ततस्थोऽप्यनिरुद्धेण तुरङ्गस्य दुपालने प्रार्थितो भीषणो राजन् प्रत्युवाच भीषण उवाच यदा भवति चैतन्यो मत्पिदा सुरबालक तदहं तस्य वचनादागमिष्येन संशयः यदीरितोसौ किलभीषणेन प्रद्युम्न पुत्र क्रतुवासनं च कृत्वा विमाने यदुःसेनया वै स्वयं समारुह्य जगामखं हि यदि श्रीगर्गसंहितायाम् हयमे दखण्डे उपलङ्काविजयो नाम विंशोऽध्यायः अध्यायम् 21 गर्ग उवाच पदप्राप्तस्वसेनायाम् विमानस्त उषापदिः शीघ्रम् चाकाशमार्गेण नादयन् जयदुन्दुभीन् दृष्ट्वा तानागतान् सर्वे ह्यक्रूराद्याश्च यादवाः मिलित्वा सर्वं सर्वम् पप्रच्छुस्तेऽन्यवेदयन् ततस्य कृत्वा विमूर्च्छां वै बकस्तु सहस्रोद्धिदः अदृष्ट्वा यादवां तत्र पुत्रम् पप्रचरोषधः तदपित्रेभीषणो वै वार्ताम् सर्वामवर्णयद श्रुत्ववजप्राकबुरुषा प्रस्फुरिदाधरः अहम् जानामि यदवो विमानेन कुशस्थलीम् मद्भया च गदा पुत्र यथा सिंहभयान् मृगाः तस्मादयादवीम् पृथ्वीम् करिष्येखम् न संशयः हनिष्यामि यदून् सर्वान् गत्वा कृष्णस्य द्वारकाम् भीषण उवाच मन्युम् नियश्च भो राजन्नस्माकम् समयो न हि यदा देवो तदा जेष्यामयाधवान् गर्ग उवाच धिदसोऽपि पुत्रेण तूष्णीम् भूत्वा बकासुरः विचचारवनि राजन् वनजन्तून् प्रभक्षयन् तदस्तु रङ्गम् विधिनाभिषिच्य दानानि दत्त्वा द्विजपुङ्गवेभ्यः विमोचयामास पुनर्जयाय प्रद्युम्नपुत्रो विजयो नृपेन्द्र अयस्तु मुख प्रकोवन् नृपधैवतम् च पश्यन् स देशन् बहुवीरयुक्तान् भद्रावतीं नाम पुरीं जगाम तत्र भद्रावतीमश्वो नाना चोपवनैर्भृताम् गिरिदुर्गणराजेन्द्र तदारजनमन्दिरैः महावीरजनैर्युक्ताम् यौवनाश्वेन पाजिताम् ऋढां लौककपाठैश्च नृपस्याग्रे स्थितो भवद तम् गृहीत्वा तु तस्यापि वार्ताम् ज्ञात्वा नृपेश्वरः युद्धम् कर्तुम् च कुपिदः ससैन्यो निर्ययौ पुराद सैन्यमागतम् दृष्ट्वा यौवनाश्वम् महाबलम् आहूय मन्त्रिणम् प्राह कृष्णभक्तम् हि कार्ष्णिजः अनिरुद्ध उवाच कोऽयम् समागतम् मन्त्रिन् सम्मुखे सहसेनया हयहर्ता श्रुतम् मुख्यो तत्सर्वम् उद्धव उवच नृपोऽयम् यौवनाश्वाख्यो मरुधन्वपदे सुदः अत्र राज्यम् च कुरुते मृदेपितरि सत्तम अयम् षोडशवर्षीयो कुमन्त्रिवचनाद्रणम् करिष्यति महाराजमारणीयः सनत्वय इति श्रुत्वा तदेद्योक्त्वा यौवनाश्वेन कार्ष्णजः युद्धम् चकारप्रथने यथा नागेन नागः तम् तु देविरतं चक्रे कत्वा चाक्षौहिणी त्रयम् प्रत्यागविमलम् वाक्यम् यौवनाश्वमुश्रापतिः अनिरुद्ध उवाच राजन्प्रयच्छतुरगम् युद्धम् कुरु न चेन्मया वाक्यम् श्रुत्वा हरे पौत्रम् ज्ञात्वा राजा भयान्विदः अर्पयामास विधिना तस्मै यज्ञदुरङ्गमम् भूत्वा कृताञ्जलिराजा प्रार्थितस्य न चाम् यौवनाश्व उवाच द्वारकायां यदा यज्ञो भविष्यति नृपेश्वर तदा सञ्चागमिष्यामि कृष्णस्याङ्घ्री विलोकितुम् ततश्च कृत्वा तं राज्ये वन्दितस्तन कार्ष्णिजः मुमुचे वादिनं श्रेष्ठम् विजयी विजयाय च इति श्रीगर्गसंहितायाम् कयमेतखण्डे ओम् अध्यायं 22 टु गर्ग उवाच प्रवीरस्य तुरङ्गमो वै विलोकयन् राजपुरं जगाम निरीक्ष्यमार्गे सपरां नदीं च श्यवन्दिकाया विपिने स्थितोऽभूद तदैव तत्रागतवान् महात्मा सान्दीपनिकृष्णगुरुर्द्विजेन्द्रः स्नादुम् गृहा श्री तुलसीस्रजाढ्यः स धौधवस्त्र प्रजपन् कृष्णम् तदर्श तत्रापि पिबन्धम् तुरङ्गमम् वै धवलम् सपत्रम् वाक्यं बभूवन्ये विमोचितकेन नृपेश्वरेण तत्र स्नानं प्रकुर्वन्तं दृष्ट्वा बिन्दुनृपात्मजम् अयस्यार्थे मुनिर्गत्वा नोदयामास्तम् नृप ततः सवीरैर्बहुभिश्च राजन् राजाधिदेवी तनयश्च सूरः जग्राहवासं सहसा निरीक्ष्य नत्वा गुरुं तद्वचसा प्रसन्नः अयं गृहीत्वा गुरवे दर्शयामास हर्षिदः पत्रम् वाजयित्वाह नृपम् सान्दीपनिर्मोदा सान्दीपनिरुवाच उग्रशनस्य तुरगम् विद्धि प्राद्युम् निपालितम् यदृच्छयागतम् राजन् कार्ष्णिज्योत्रागमिष्यति आगमिष्यन्ति बहवो यादव शुद्धशालिनः मित्रविन्दात्मजाश्चैव पश्यन्तस्ते तुरङ्गमम् पूजनीयास्त्वया सर्वे कृष्णचन्द्रस्य नन्दनाः मद्वाक्याद्युद्धबुद्धिम् त्वम् त्यक्त्वा देहितुरङ्गमम् इति श्रुत्वा गुरोर्वाक्यं तन्वी शूरो नृपात्मजः अयं नेदुम् मनो यस्य तत्र तूष्णीं बभूवः तथैव यदुसेनायः शब्दो भूल्लोकमानः महानादं दुन्दुभीनां तङ्कारं धनुषां तथा चीत्कारं दन्तिनां चैव भयानां भेषणं तथा चमत्कारं व्रतानां च वीराणां गर्जनं तथा शदघ्नि नमः शब्दं लोकानां भयदायकं श्रुत्वा राजकुमारस्तु विस्मयम् परमं गतः तदसमागत सर्वैरधिभिश्च गजैर्हयैः भोजभृष्ण्यन्धक मधुशूरसेन दृ मधुशूरसेन दशार्थकाः प्रजोभिश्च न भो व्याप्तं कुर्वतश्चलितां महीम् केननी तत् सर्वे ब्रुवन्वचसा पदश्च ददृशु सर्वे कोटकं बद्धसामदं महाद्भुदे चोपवने पुष्पिदध्रुमसङ्कुले गृहीतं लीलया तत्र नृपपुत्रेण बिन्दुना दृष्ट्वा निरुद्धं निकटे गत्वा प्रथसन्नृप उद्धवम् प्रेषयामास बिन्धो पार्श्वे जधर्मविद तदपुर्य महाराज चासीत् कोलाहलो महान् भयभीता सर्वे सेनाम् वीक्ष्य भयङ्कराम् अध वैभ्रादरम् द्रष्टुम् ्यनु बिन्दुर्भयान्विदः कोडिवीरगणैसार्धं स्वपुर्या निर्ययौ बहिः दृष्ट्वा यज्ञहयं तत्र सपत्रं च भयप्रभं भ्रात्रा गृहीतं च भयान्निषेधं च निषेधं स चकारः अनुबिन्दुरुवाच यदूनां कृष्णदेवानां भ्रातमोचयखोटकं मिषेणाभि कुलकौशलभेदवे यादवानां बलं पश्य देवदैत्यनरासुराः पुरा यज्ञराजसूये सर्वे भ्रातर्विनिर्जिताः इति तद्वाक्यमाकर्म्य बिन्दुर्ज्येष्ठोऽवधर्षितः आगतं शुद्धवं दृष्ट्वा हयस्तं प्रत्युवाजः बिन्दुर्वाज मया गृहीतस्तुरपमित्राणां मिलनायज तस्मान् निमन्त्रिता सर्वे स्थितं कुरुत चात्र वै इति श्रुत्वोद्धवो राजन् बिन्दुं संस्वाख्यभर्षितः अनिरुद्धस्य निकटे गत्वा सर्वमुवाचः श्रुत्वा अनिरुद्धस्तद्वाक्यं भूत्वा राजन् प्रसन्नधीः श नय्या वन्दिकायाम् च नदीतीरे वसत् किल अनेके शिबिरराजम् तत्र वैदशयोजने नानावर्णाः सकलश्च ह्यून् ह्य भूवन्नद्भुदाशुभाः भक्ष्यम् भोज्यम् च लेख्यम् च चोष्यमेतैश्च भोजनैः आकतेभ्यश्च सर्वेभ्यो बिन्दुरर्पणमाकरद तथा चैव तृणान् पशुभ्यो दत्तवान् नृपः ये दृग्भिधं च सत्कारं वृष्णीनां स चकारः नृपो राजादिदेवी च द्वौ तदा नृपनन्दनौ भृशं नु मुमुदिरे सर्वे वीक्ष्य सर्वान् हरे सुधान् किलकार्ष्णि निशायां किल च स्वपितामहस्य आहूय नत्वा सनमेव दत्त्वा प्रत्यागकृत्वा वरभूजनम् च भगवन्द्वारकायाम् च कृष्णवाक्यात् प्रदुत्तमम् परोधिहयमेधाक्यम् चक्रवर्ती यदूत्तमः तस्मिन् क्रदुवरे ब्रह्मन् कृपाम् कृत्वा ममोपरि त्वम् तु गच्छ मुनिश्रष्टपुत्रेण च अनिरुद्धस्य वचनम् श्रुत्वा सान्दीपनिर्मुनिः कृष्णदर्शनकाङ्क्षी चलितुं स मनो दधे इति श्रीगर्गसंहितायाम् पयमे धखण्डे अवन्तिकागमनं नाम द्वाविंशोऽध्यायः ओ